गणेशपुराणम् क्रीडाखण्डम् अध्यायम् एय्टीन् व्यास उवाच अपरेहनि सम्प्राप्ते का कथा समपद्यत ता मे कथय लोकेश शृण्वृप्यामि न क्वजिद क उवाच <laughs> शृणुष्वहितो ब्रह्मन् कथयामि समासदः विनायककृतां दिव्यां कथां पापापनोदिनीम् उदिते दुदिवानाधे नित्यकर्म समाप्य तौ मगमद्बालो राजा भद्रासनं तया दैत्योधब्राह्मणो भूत्वा ज्योतिश्शास्त्रविशारदः तालीयं पुस्तकं वा मे मालां दक्षे करे दधद पाण्डलं परिधानं च शिरो वस्रं महत्तरं गोपीचन्दनसम्बुधां तिलकान् द्वादशापि च अधिदीर्घतामश्माश्रुराजगामनृपान्तिकं समीप पमागतं यावत् तावद्राजा ननामतम् उद्धायतं समीपे सस्वासने सन्यवेशयद पप्र च तस्मै कार्यं चागमनं कुतः किं नाम विप्रेन्द्र किं ज्ञानम किञ्च वद सत्यं कृत्वा कृपा कृपानिथे क उवाच एवं पृष्ट सदेनाशु दत्त्वाशीर्वचनं पुरा अनुक्रमेण सकलं निजगादमहामुने हेमज्योदिर्विदित्येवं नाम मे नृपनन्तन गन्धर्वलोकादयादो वस्तं तव समाश्रये बुधं भवद्भविष्यं च शान्तिकानि जवेद्म्यहं प्रश्नांश्च कथयिष्यामि यान्यास्त्वं पृच्छ सेनख अरिष्ठान्यत्र जातानि जातानि तानि मे नृप भाविते दुष्टचिह्नम् च विज्ञायाकम् समागतः त्वदाश्रयेण वस्तु मे वाञ्छास्ति नृपसप्तमा नृप उवाच किं निमित्तमरिष्ठानि जायन्तेऽत्र अग्रेऽपि कानि भावीनि सत्यमेव वदस्वमे मे तव प्रदिदौ जातायां स्थापयिष्ये निजे गृहे वृत्तिं च कल्पयिष्यामि योगक्षेमकरीं तव गणक उवाच यावद्विनायकस्तेऽस्ति गृहे कश्यपनन्तनः तावद्विघ्नानि जायन्ते यतो विघ्नाधिपस्तु सः असञ्चारे वनं चैनं त्यक्त्वा या हि नृपात्मज न भविष्यति विघ्नं नगरे वा गृहेऽपि च अस्मिन् स्थिते जलं सर्वं नगरं प्लावयिष्यति तस्मिन् कथं जिन्नष्टेदु पर्वदा वायुनोदिताः चूर्णयिष्यन्ति नगरं नृप नास्त्यत्र संशयः एतत् कथं न जानीषे पूर्वं नास्सन्नुपद्रवाः राज्ञा विश्वसितव्यं नो कपडे लुब्धकेषु च अधिशूरे स्वोकडे च स्वात्मपादं ये एघ्नन्ति च राजानं राज्यकामा महाशयाः एतत्कथयितुं यादौ ज्ञात्वा राज्यच्युतिं तव हिताहितमवश्यं हि वक्तव्यं जानता नृपे विविच्य वी नृपमे वाक्यं यथेच्छसि तथा कुरु क एवमाकर्ण्य तद्वाक्यं राजातं पर्यभाषत राजोवाच अतीतानागतज्ञानादुक्तं सर्वं त्वया मुने मिथ्यैव भासते मह्यं तत्त्वज्ञाने प्रपञ्चवद त्वदुक्तप्रत्यये जादे दास्यामि वेतनं तव न ज्ञादो त्वया गणकसत्तम् ब्रह्माणं कमलाकान्तमपरं शूलिनं हरं जनयिष्यति वाञ्छा चेत् ब्रह्माण्डानि बहूनि सह यदि ते निश्चयो वाक्ये स्वकीये ब्राह्मणोत्तमं नयैनं गगनं घोरं त्यक्त्वैनं पुनरेहि च योगद्वेषकृतोऽनेन बलवत्तराः स्वध्येष्ठारं कथमयं न जाने स्थापयिष्यति अनिष्टमस्य मनसि न वयं चिन्तितुं क्षमाः अनेन नगरीराज्यं त्रादमुत्पादतो बहुः करोगीन्द्रमनीन्द्रं वा शक्तं शक्तं लघुं गुरुम् उच्चं नीजं तदा नीजमुच्चमीशमनीश्वरम् संश्रुत्य वाणीं नृपदेर्गणगो भूदृशारुणः राजानं पुनरारेभे वक्तुं किञ्चिदवाग्मुख मया तव प्रोक्तमनिष्टं तव नजादु न जातु लङ्घयेत्कोऽपि भावि स्रष्टुं तथेतरद नृपदे दर्शयैनं मे बालकं लक्षणानि कथयिष्ये तदो बालान् सर्वानाकारयन् नृपः अग्रे विना यथ प्राप्तो धावमानस्तदोखिलाः गणकं स नमस्कृत्य पप्र कुद आगतः सामुद्रलक्षणज्ञो सि ज्योतिश्शास्त्रविशारदः भूतभावि भविष्यज्ञवद मे भाग्यजं फलम् क उवाच स धैर्यं बालवाक्यं तदा कर्ण्यकपडी द्विजः तर्कयामास मनसि कथं स्वस्ति गतिर्भवेत् अनेन निखदा दुष्टा बलिनो नेकरूपिणः शिशोर्हस्तं गृहीत्वा स वदति स्म शुभाशुभं चतुर्षु दिवसेषु पदिष्यसि चेन्निर्गत कथञ्चित्त्वं सिन्धौ मज्जनमेष्यसि ततोऽपि जीवितश्चेत्तुध्वान्दमग्नो भविष्यसि ततोऽपि जीविते शैलस्त्वयिकोऽपि वदिष्यति महान्धौ कालपुरुषौ जीवन्तं भक्षयिष्यतः ये धान्यरिष्टानि तव भविष्यन् दिनसंशयः प्रतीकारं ब्रवीम्यत्र निर्भयार्थं पुरुषवत्तं ततोऽन्यत्र मया सार्धं याहि दिनचतुष्टयम् पुनरत्रानयिष्यामि शपथो मे तजाङ्घ्रिचः निशम्यमाजं बालोऽसौ जगामहान्तगृहं शनैः राज्ञो हस्तात् प्रगृहयाशु मुद्रिकं रत्ननिर्मितां कृत्वा स्वकरे बालो वदति स्म द्विजं प्रति नो गदं वस्तु महत्तरं केननिदं तदा प्राप्तं भूया प्रत्ययो भवेद। इत्युक्तः सदु बालेन विचार्य जनसंसदि बभाण हास्यवदनो मुद्रिका यदि लभ्यते ममैव यदि देया सा तदेदानीं ब्रवीम्यहं बालके नोक्दे तवैव करगेदि सा इधमुक्तो जिह्मवेषधारिणा वाडवेन सा तया मन्त्रितया बालोऽन्यवधीतं ह्रदिक्षणाद स तया भिन्नहृदयो वज्राकदयिवाचलः निपपादधरापृष्ठे चालयन् वसुधाम भृशं पतत तस्य देहेन चूर्निदं नगरं कियद काशीराजो जन सर्वे आश्चर्यं मेनिरे तदा जहर्षुर्देवता सर्वाः पुष्पवृष्टिं सुचक्रीरे स्वर्गभुवाद्यघोषैर्यौ व्याप्ता भूद्भूतलं तदा जना ऊचुः कथं ज्ञातो नेन दुष्टो ब्राह्मणो ब्रह्मवेशभृतराज्ञापि न कृतं दैवाद्वाक्यं तस्य दुरात्मनः अयम् बालो न मन्तव्यभूपार हरणेमरः अवतीर्नः कश्यपश्य गृहे सौ करूणानिधिः मुद्री काकादमात्रेण कथं प्राणान् जहौ बलि इत्युक्त्वा पूपूजः सर्वे नेमुस्तं तुष्टुवोर्जगुः ददौ दानानि विप्रेभ्यो राजा राजीवलोचनः द्विचचारणबन्दिभ्यो दीनेभ्यश्चाप्यनेकषः नागरान् मानयित्वा तान् विससर्ज ततः सभां बालोऽपि बालकं रन्तुं ययौ पूर्ववदज्ञवद इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते कपडिदैत्यवधो नामाष्टदशोऽध्यायः ॐ